अषादोध्याय राक्षस्युवाच जरानामास्मे भद्रंते राक्षसी कामी तव वेस्मराजेन्द्र पूजिता न्यवसंसुखम गृह गृह मनुष्याणंठा राक्षसी गृहदेवती वैपुरा सृष्टा स्वयंभुवा दानवानाम् विनाशाय स्थापिता दिव्यरूपिणी व्योमाम् भक्त्या लिखेत् कुड्ये सपुत्राम् यवनान्विताम् गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् त्वद्गृहे तिष्ठमानाहम् पूजिताहम् सदा पुत्रैर्बहुभिरावृता गन्धपुष्पैस्तथाधूपैर्भक्ष्यभोज्यैः सुपूजिता साहं साहम् प्रत्युपकारार्थम् चिन्तयाम्यनिशम् तव तवे मे पुत्रशकले दृष्टवत्यस्मिधार्मिक संश्लेषिते मया दैवात्कुमारः समपद्यत तव भाग्यान्महाराजा हेतुमात्रमहम् त्विहा तस्य बालस्य यत्कृत्यं तत्कुरुष्व नराधिप मम नाम्ना च लोकेऽस्मिन् ख्यात एष भविष्यति मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव श्रीकृष्ण उवाच एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ससङ्गृह्यकुमारं तं प्रविवेशगृहं नृपः तस्य बालस्य यत्कृत्यं तच्चकारनृपस्तदा आज्ञापयच्च राक्षस्य मगधेषु महोत्सवम् तस्य नामाकरोच्चैव पितामहसमः पिता जरया सन्धितो यस्माज्जरासन्धो भवत्ययम् सोवर्धतमहातेजामगधाधिपतेः सुतः प्रमाणबलसम्पन्नो हुताहुतिरिवानलः मातापित्रोर्नन्दिकरः शुक्लपक्षे यथाशी इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधोत्पत्तो अष्टादशोऽध्यायः